अथ ऊनविंशम् दशकम् पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ प्रचेतसो नाम सुचेतसः सुतानजीजनत्वत्करुणाङ्कुरानिव पितुः सिसृक्षा दशापिते पयोनिधिम् पश्चिममेत्यतत्तटे सरोवरम् सन्तदृशुर्मनोहरम् तदा भवत्यर्थमिदम् समागतो भवो भवत्सेवकदर्शनादृतः प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् स्तवम् जपन्तस्तममी जलान्तरे भवन्तमासे विशतायुतम् समाह भवत्सुखा स्वादरसादमीष्वियान् बभूव कालो तपोभिरेषामतिमात्रवर्द्धिभिः स यज्ञ हिंसा निरतोऽपि पावितः पितापि तेषाम् गृहयातना रद प्रदर्शितात्मा भवदात्मताम् ययौ कृपाबलेनैव ततः प्रचेतसाम् प्रकाशमागाः पतगेन्द्रवाहनः प्रचेतसाम् तावदयाच तामपि त्वमेव कारुण्यभराद्वरानदाः भवद्विचिन्तापि शिवाय देहिनाम् भवत्त्वसौ रुद्रनुतिश्च कामदा अवाप्यकान्ताम् तनयाम् महीरुहान्तया रमध्वम् दशलक्षवत्सरीम् सुतोऽस्तु दक्षो ननु तत्क्षणाच्च प्रयास्यथेतिन्यगदो मुदैव ततश्च ते भूतलरोधिनस्तरुन् क्रुधा दहन्तो द्रुहिणेन वारिताः द्रुमैश्च दत्ताम् तनयामवाप्यताम् त्वदुक्तकालम् सुखिनोभिरेमिरे अवाप्यदक्षम् च सुतम् कृताध्वराः प्रचेतसो नारदलब्धया इत्यूनविंशम् दशकम्